संहितापठम् भद्रं गर्णेभिः शृणुयामदेवा भद्रं पश्येमाक्षभिर्यजत्रा स्थिरैरङ्गैस्तुष्ट्वांसस्तनूभिर्प्यशेमदेवहितं यदायुः भद्रं गर्णेभिः भद्रं पश्येमाक्षभिर्यजत्रा स्थिरैरङ्गैस्तुष्टुवां सस्तनूभिर्प्यशेम देवहितै यदायु भद्रं कर्णेभिः शृणुयामदेवा भद्रं पश्येमाक्षभिर्यजत्रा स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्प्यशेम देवहितं यदायु